यो भादय ेवता व्यावृष्टदेवावीयान् भवदीया यथा देवदन्न देवता व्यावृष्टदेवसीयान् भवत्याग्नेया प्रथमाभिषे दृष्टुभा द्वितीयाञ्जगत्या तृतीयामृष्टुभाचतुर्थे पञ्चापञ्चमे यथा देवतमेवाग्निञ्च कृतेन देवता व्यावृष्टदेवदीयान् पशुभयिना पशुभिः प्रजापदये प्रथिप्रोचाग्निवार्च्छत्यश्वाभिनस्तिष्ठेनाङ्कृष्णमुत्तरश्वेतो दक्षिणस्तावालभ्येष्टका प्रजापदे रूपम् प्राजापत्योऽश्व साक्षादेव प्रजापतये प्रतिप्रोचाग्निञ्चि नो जनाग्नि वार्च्छत्य अन्नारोप्येत स्वरात्रि कृष्णे तदन्नारोपष्टकालेष्टकामुपधास्यमश्वमभिवृधे तुलेशमुपधास्य कृष्णमहोरात्राव्यामे मैनञ्जनते हिरण्यपात्रं मधर्नन्ददातिमधव्य चित्रमस्या यत्यसौमादिपयत् प्राजापत्याश्वस्तमेव साक्षादृध्नोति दे। स्वामग्नेपञ्चे विदानम् पुणल्यमानम् जनयन् नृपागा अस्थोरिणा कालवत्यानुसन्तः ब्रह्मणा सिशाधि काश्चित्या प्रजननाय तस्माद्योधरिणवः संवत्सरस्य प्रतिमायान् कृपासते प्रजागुम् सुरीरा कृत्वा जापत्यामेतामुपधातीयम् वावेयैकाष्टकाय देवैकाष्टकाजामन्यम् क्रियते सेवै प्रजावरुन्धय प्रजापते कामधुघात एव यजमानामस्मिन्लोके गृन्दुभेण देवा रुद्राः स्तेनैकमानस्वस्तेषोद् नित्यक्षकम् अविन्दकाय नैतास्व कश्च समष्टे शतायुधाय सर्वे सोदरेऽभिमाचे शतैयानः शरदो अजेतानिन्द्रोषुरान्तराद्या वा पृथिवी वियन्ति तेषाय अज्ञानमजेति मावः तस्मै नो देवाः परिधत्तेः सर्वेष्मो हे मन्तपुतनो पतन्तः शरद्वलास्तु पितन्नो अस्तु ेषामृतो नागं शारदानाम् निवादने नाम इदु वत्सराय परिवत्सराय संवत्सराय कृतामः यज्ञानाम् चोगरीताभद्रास्याम भद्रान्नश्रेयः समनैष्टते भास्तु महित्वा वयो भोः पित्वाविशस्वसन्तो कार्यतनुवेस्यो नः ज्ञानेरेता उपदथा चेता वे देवतापराजितास्तादेव प्रविशति नैव जीयते ब्रह्मवादिना वदन्ते तद्धमासा मासार्दवः संवत्सर्वोदधे पदन्ति तस्मादन्याभ्यो देवताभ्याग्रेण निरूपणैताभ्या निर्ववेत् देवताभ्य समनन्दभ्यादाग्रेण निरूपेता ्रेणादिजदेव भद्रान्नः श्रेणः समनेष्टदेवादित्याः मानस्यापया भावाय इन्द्रवज्राजिमार्थभ्यस्तनोपानः प्रतिस्पशः यो नः पुरस्तादक्षिणतः पश्चादत्तरतो भागदभिदाधत्तेतकम् सोऽस्मानमृच्छद श्वयत्तासन्तताम् देवाविश्वानभज्रेण तापानुदन्त यद्वज्रेपदधादेश्वादेवरद्वज्रेण जनाभ्राजुर्व्यानपनुदते दिक्षोपदधादेव पुरादेवैतास्तनोपाने पर्यो हदेज्ञा विष्णो रजोषेमाबद्धम् वा तु वाङ्गिरः वाजभिरागतम् ब्रह्मवादिना वदन्ति युन्न देवता येजुःपक्षिं देवत्यावसार्थाने यज्ञर्वस्तस्यैकाधारा कृष्णर्वस्तस्यैराधारामैष्णव्यत्यावसारैनसमर्थयत्येन्दरादयत्कामयेतदेवावृन्दे रुद्रावाय नयनज्ञस्तस्यै घोरान्या शिवान्यायच्छदरुद्रेयं ज्यो दैवास्य घोरातनोऽस्तान्तेन शमयति यद्वसार्धारां ज्योतियवास्य शिवातमनोऽस्तान्तेन प्रेणा देवसार्धाराय प्रतिष्ठां मेल प्रत्ययवतिष्ठति यराज्यमुच्छिष्ट्य जस्यं ब्रह्मोदनं पदेश्चेज रजवाज्ञ श्वानो याम् मणयका अनुवाग्ने प्रियामो यद्वैश्वानप्रियायामेवनाम् अनुपाम् प्रविष्टा वै जनस्रोतेनोर्द्यात्ताभिरेवयरमामुष्णल्लोके बृन्दुहे कीर्ति मनसा कृते वेदाहुर्वैश्वकर्मणि ऐनन्त्यज्ञानम् भातुर्व्योदभाता एवावरुन्धे ज्ञेतभतेति पञ्चाजहोति पञ्चाहुत्या यज्ञमुखमारभते सप्तदे अग्नेतविधः सप्तदेत्वा इत्याहोत्रा एवावरुन्धे जाता भागधेयमिच्छमानस्तभागधेयं प्रायच्छन् एतद्वा अग्नेरग्निहोत्रमेतरेखलुवारेकजातो यदि गृदर्वस्थितो जाताप्रेणादि ब्रह्मवादिनाभन्त्यश्चीयते तत्त्वादित्य एवम् विद्वानग् साक्षादेवदेव अयम् उत्तमश्लोको अस्तु पश्यन्त उपधे तुलग्रे तपो देक्षाविषयस्वर्मिनः विधाता नमोदश्च जातम् तदस्मै देवाभिदन्नवन्तस्ताधिपर्वो अस्तु सर्वे राष्ट्रभृतयेतावपदधा देतावाग्ने स्थिति राष्ट्रभृत्तदेवास्मिन् राष्ट्रम् दधाति राष्ट्रमेव भवति नास्माद्राष्ट्रम् भते यथा मे पुत्रो जातो म्रिय एवं वारेणम् म्रियते यस्याज्ञद्वाय श्रियञ्जन् मन्थ्यम् कुर्यात् पृच्छा भ्रातरु यमस्ने सदे यस्मादेवनयदिनास्मै भ्रातरि व्यञ्जनयति तमो मारे यस्याज्ञद्वाय रिमृत्यस्तमः कृष्णम् वाचकृष्णाधेन दक्षिणा तम सैव तमो वर्त्यव हिरन्यन्दताज्यो धर्मैभिरन्यञ्जोतिषैवतमोपहते छो ते जो वैहिरन्यन्ते च देवात्मन् धत्ते सुवर्णघर्म स्वाहा सुवर्णार्कस्वाहा सुवर्णशुक्ता स्वाहा सुवर्णज्यो यस्वाहा सुवर्णयो यस्वाहात्वरसावादित्योऽश्वमेधो येशाहुये जोत्यर्काश्वमेधयो रेवज्यो देगं विसन्दधा त्वा अर्काश्रमेधीयस्तेदराज्ञ आपोपा इदमग्ने समाजेत् सलेताम् प्रजापतिप्रथमाञ्चितिमपश्यत्तामुपाधत्ततदियभवत्तम् विश्वकर्मा प्रभेदुभक्त्वा यानिहलोकोत्यमपश्यत्तामुपाधत्ततदन्तरिक्षमभवत्सेज्ञः प्रजापतिम प्रभेदुभक्त्वा यानि दिनेहलोको स्त्येत्यब्रभेत् स विश्वकर्माणमब्रभेद मत्वा जानेति के न मोपैष्यसी ऋतिश्चाभिरित्यब्रभेत् तं दिश्याभिरुपये तावुपाधत्ततादिशोभवान् स परमेष्ठे प्रजापुरिमब्रभेद मत्वा जानेतिनेहलोकोऽस्त्येत्यब्रभेत् स विश्वकर्माणम् च यज्ञञ्चा ब्रभेदु पभावा ितिमपश्यत्तामुपाधत्तसात्सहायित्यप्रजापतिमब्रभेदुभक्ता याने देहलोको स्थेत्यब्रवे विश्वकर्माणयित यज्ञञ्चाब्रभेदुपवामा यानेतिनेहलोकोऽस्थेत्यब्रोरागं सपरवेष्ठिणमब्रभेदुभक्त्वा यानेति कैनमोपैष्यतीति लोकं प्रणयेत्यब्रवेतं म् प्रणायादनाभाष्यदावाजत्यस्तानुषम् ब्रुवन्नुपमागामेकेन न भवेष्यथेति भोम् नेत्य ब्रुवन्ताम् वाभ्याञ्चिदेवेभ्यामुपायान् सपञ्चयिते कस्तमपञ्चदेम् विद्वानग्निम् च नुते भूयानेव भवत्य भीमान् लोकाञ्जेति विदुरेणम् देवा अथो एतासामेव देवतानागुम् सायुज्यम् गच्छति यदग् पक्षिणोऽस्त्रीया तमेवाग्निमद्यादात्य सम्वत्सरं व्रतञ्च संवत्सरं ह्यतन्नाति पशुर्वाय रनस्ति खलु वैतम् पशुर्ययेतस्मात् पश्चात् प्रागुपचर्य आत्मकम् द्वाजयैते ज्योचिते जो मे यच्छ पथिवे यच्छ पथिवेज्य र्मे यच्छान्दरक्षयच्छान्दान्माहि वर्मे यच्छति वयं यच्छ दिवो मा वाहेत्याहेताभिर्वाहि मे लोका विधृताय देता उपदधा तेला स्वयमादर्णा उपधार हिरण्ये प्रगा उपदधायि मे मे लोका स्वयमादर्णा ज्योतिर्हिरण्यं यत् स्वयमादर्णा उपधार हिरन्ने प्रगा तथा जीमा नैवेताभिर्लोकान् योज्मनः कुरुते सो एताभिर्देवास्माभिः प्रभान्ति यास्ते हेदोर्गे जिवमाधन्वन्दिरस्मिभिः ताभिः भी सर्वाभिर्जे जनायनस्कृतिः यावो देवाः सौर्ये ऋचो गोष्वस्वेभियातः एताभिः सर्वाभिरुदर्णो धत्त बृहस्पदे ऋतर्नो धे हब्राह्मणेषु वृक्षम् राजसुनस्कृतिः ऋतम् विश्वेषु श्रोद्रेषु मयिधे ज्ञम् चिज्ञानस्य यद्रियम् गच्छत्यज्ञम् वा चिदमी दानम् वा याभ्यत्मन्येवयसैन्द्रियम् धयेश्वरो वा यदामजतत्वायाभिब्रह्मणामन्धवानगिरिवारुण्यत्राजभूयाक्षान्तिरेवैराग्नेत्मनो हविष्कृतो वा योजय स्कन्दत्येवं वा एकस्कन्द्रावक्षया प्रत्येव दक्षिणः पक्ष वर्षा पुच्छकं शरद ेवास्थितयोपरभक्षा पुरेण महोरात्राणि कल्पमानवेदृत्येवम् विद्वानम् ज्येष्ठमेव गच्छति यदा कोरात्सपदस्तात् वा मनसो वा सम्भृतम् चक्षुषो वा तमनप्लेह सुगदस्य लोकयक्षमया ये पुराणाः एतगुत स्थलिते तदा विजमावहातवे यज्ञपदर्भो तदर्गस्पजालेन देवा स्यात् आगच्छात् देवयानेष्टा भोक्तेरस्मै संरक्ष्यवभ्रमनुसंप्रजाताग्नेपथो देवगानान् क्रोध्वम् अस्मिन् सहस्थे अध्युत्तरस्मिन् विश्वे देवा विद्यमानश्च सीतता यजन् न वसुवद्देवेषु गन्तवे यदृष्टैयत्परादानै्यद्दत्तैया च दक्षिणा तथग्निर्वै स्वकर्मणः सुवद्देवेषु नादधते येन सहस्रम् वहसि येनाग्ने गर्ववेदम् यजम् न वसुवद्देवेण गन्तवे े दक्षिणा युक्ता यज्ञम् वहन् तृत्विदः तेने मै यज्ञम् न महासुमर्देवे जुगन्तवे येनाज्ञे जुगुनः पथामधोर्भाणा तेन मै यज्ञम् न महासुमर्देवे जुगन्तवे यत्र धारा अनपेतामधोर्गदस्तजयाः ैश्वस्ते अग्ने समितो निधामया जग्दवे दो यो अर्चिः एते अग्ने वेण जोजयन्त हस्तेभिरात्मानञ्जलः प्रजानन् यज्ञा वा हैलयरग्न्य किम् वा हैरश्च क्रियते किम्बाद्वा अध्वर्यरग्नश्चिन्मन्वन्तरे चात्मनो वैतदन्तरे दयाश्चमिधायामिधाने हैषा वा अग्नेश्वयञ्चतिरग्निरेपदग्निम् च न दिनाधर्यरात्मनान्तरे दिनस्राधाः प्रजलन् रग्न इमन्नम् नैलप्रजानन् घृतम् पिङ्गन्न जनकम् सुमेहम् ब्रह्म समेभ्याहुदीनाम् स्वर्गाय माय लोकायपधीयते यत् कोर्मश्च तस्वाया प्रजनन्वग्नयित्याहभिषे वेदेन प्रजानाजीवन्मायज्ञन्नयत प्रजानन्नित्याहसुवर्गस्य लोकस्याभिधेयेत्यै ब्रह्मदवैतव्याहुदेनामित्याहद्ब्रह्मनावेदेवासुवर्गं लोकमायज्रह्मण्वत्यापदधानि ब्रह्मणैव त्यजमानस्वर्गं लोकमेदि ग्निस्तश्च प्रजाः पशवच्छन्दागम् उपकम् सर्वाणवर्तारोणैव प्रजाम् पशो्छन्दागस्य परम्भ्यो प्रजाभ्यदेवेण पशुभ्यश्चन्दाभ्यावद्भ्यज परिगर्णाम्यग्ने अग्निगौ रायस्तोषायुः प्रजास्वायसबेर्व्याय मैं प्रजातवा सुवीपित हृत्व आ विवेशेमे वयम वाजो अस्पुम अवहाय परागा र्युलात्मनो नोपतिष्ठन्ते भक्त्रास्मावस्य ग्रन्थाम्यग् अग्निमित्यात्मन्येव न वदन्ति मृत्या पश्चाग्ने atha yeah. yeah. ष्टाग्निश्चयसंज्ञा वे सर्वा देवता देवताभिदेवैं सकंसु वाग्निवेश्वाग्नि ब्रह्मवादिनापदं चाग्निरुच्चरयधिकस्मादग्निरुद्ध Ishwaraambada jana kripa lalya shete hirne taga upadhaarit yo janme hirna dandyo teva यत्रेष्टुभं दक्षिणतो जगते पश्चादुभमुत्तरतः पङ्क्तिं मध्ये सर्वतोमुखस्तैर्यं विद्वायष्टि मृते सर्वासु विष्टम् प्रयस्मा विजयि प्रोधा जापदोऽस्मात् सृष्टः प्रान् प्रात्रभक्तस्माश्वम् प्रत्या सत्सदक्षिणावत्तर तस्मै वृष्टिम् प्रत्या सत्सप्रत्यङ्गा वक्तस्मा ऋषभम् प्रत्या सत्स पुदङ्गाभस्मै भक्तम् प्रत्या सत्सभूर्ध्वोद्रभक्तस्मै पुरुषम् प्रत्या सद्यपदुशेरुपदधानि सर्वदेवै न्यजनदय प्राणभृतश्चेरुषेरुपदधाताभिदेवास्वादिमे लोकाप्रभाप्योपदधाजमेपशोर्वा एतय रङ्गं पशवनेलकलु वा अग्निलयत्वदुषेरुमवेदकनीजोऽस्यान्नग्निस्यादि सन्तान्तस्य पशुषेरु ्युपदध्या कनीलदेवास्यान्नम् भवधियम् कामनेत समावदस्यान्यस्यादिति मध्यरस्तस्योपदध्या सावदेवास्यान्नम् भवधियङ्कामनेत भूजः स्यान्नस्यादित्यन्तरे तस्य भ्यतोपदध्यादन्तवदेवा स्वावरन्धे भूजोऽ स्यान्नम् भवति एकान्तष्टाभ्राम् मण्डोकाण्डम् खादेन जगुम् सूतेनानन्द्यञ्जाम् जगु दे मेलेन पुलम्बस्तेनवकामवकाभिः शर्करामुत्सादेन जक्वामवक्रन्देन दे तानुपुनस्पतीवाग्रेण भिर्मयामधरेणष्टेन सन्दरेणान्तरेणा नो नोकाशम् प्रकाशेन वाक्यग्रस्तनयत्रुर्निर्बाधेन दोर्याज्ञेनभ्याम् यद्यतोकनानकाभ्यामसनिम् मस्त्यष्केन बलम् मज्ञभिः शपैरक्षलाभिक्किञ्चलान् सा मकुष्ठिकाभिद्धम्यङ्गाभिरकञ्जालभ्याम् वेद्यम् गुहाभ्याम् भयम् प्रजालाभ्याम् भोमपक्षाभ्यामश्विनावगुंसाभ्यामदृगु सेर्ष्णा निर्दयम् निर्जात्मकेन सेर्ष्णा ृद्रागम चित मन सक्रोशा प्रकाशेन पदम बराशेनाशकांस्वे नृहस्पतिगुम शकुम सान मुष्टिहा मृत्रावरुणौ श्रवणेभ्यामिन्द्राग्नेशखण्डाभ्यामिन्द्रा बृहस्पति वोरुभ्यामिन्द्राविष्णो अष्ठेवद्भ्या गुण्वितारम् पुच्छेन गन् सर्वाञ्चरसमुष्टाभ्याम् भवान् वायुना पवित्रम् पौत्राभ्यामाक्रमणग्रस्थोराभ्याम् परिक्रमणम् पुष्टाभ्याम् इन्द्रश्च क्रोडो नित्तेपायश्चिशान् चक्रवो जीवोदान् हृदयो वशाभ्यामन्तरिक्षम् पुरिगतानुभवर्येणेन्द्राणीम् प्रेन्धावन्मेधान् प्रोम्नागिरेम् राशुः समुद्रमुदरेण वैश्वानरम्भस्मना ओष्टावरष्टो धारे स्थोर गुदा धान् गुदाभिरतोन् पृष्ठे भव्यम् पृष्ठे न वसूनाम् प्रथमा केकसा रुद्राणाम् भिर्नमस्तभिरेन्द्र स्वपदामेन रुद्रस्य विजयस्कन्धो रात्रयोर्धमासानाम् तृतीय मासाञ्चरुतोनाम् पञ्चमः संवत्सरस्य षष्ठः आनन्दम् नन्दसु नाकामम् यत्याभाभ्याः भयगोह्यदेवभ्याः प्रसिदम् प्रसादा व्यागम् सो व्याकरणृत्यागश्चावधोदसाभ्याम् दृष्ट्यौ रूपेण निमृत्यमरूपेण त्रिम्पीप सापो योषेण घृतगम् व्रजेणस्याम्बदकादोषेकाभित्रातु नमस्सभिप्रश्वान्त्यमगम् रूपेण नक्षत्राणि प्रजरोपेण प्रजवेच्छर्मणा छपे छब्दोपाकृता यस्पाः लब्धा यस्पाः हुता यस्पाः अग्नेपक्षयः सरस्पत्यै जिपक्षद सोपस्तृतीयाम् पञ्चमेदम् वसरस्य लष्ठे मरुदागम् सप्तमे बृहस्पते रक्तमे मित्रश्च नवमे वरुणश्चेन्द्रस्यैकादशे विश्वेनाम् देवानाम् द्वादशे या वा दुर्ग पा संयमस्य वा दोरः प्रक्षदिस्तरस्पतोपक्षदिश्चन्द्रमथस्तृतीया नक्षत्राणान्तेदमिदः पञ्चमे विद्रस्य कक्षे सर्तानागम् सप्तम् व्यम् नष्टमे त्वष्टम् नवमे धावसवेन्द्रान्यादे अन्थावनावृग्भ्यागौ सन्तयज्ञस्तावण्डाः भागौ शुकान् पित्तेन हरिमाणै यक्षाहरेष्णान् पापवादेन गोष्पाञ्छकभिश्वभक्ता गोबद्धेन शुनोसनेन सर्वाल्लोहितगन्धेन वयागुम् जक्वगन्धेन विपीलिकः प्रसादेन क्रमेण त्यक्रमे द्वादे संविधानः सनादय सुकृतस्य लोकन्दस्य ते वयज्ञस्पथया वदेव यौस्ते पृष्ठम् पृथिवी रथस्तमात्मान्द्रक्षम् समुद्रो यो निःस्तौर्यस्ते चक्षुर्वादः प्राणश्चन्द्रमाश्रोत्रम् मासाद्रमासाश्चालिदम् द्यः पशुराजे तेन यजन्तस चेतम् नागमज यद्यस्मिन्नभ्यस्तते लोकस्तञ्जे यस्य तावघ्यभाजः पशुराजे तेन यजन्तस गेतम् नागमज यद्यस्मिन् भाजस्तते लोकस्तस्मान्तरे श्याभिजति नावघ्रस्यादित्यः पशुराजे लोकस्तञ्जे क्षे ओ पञ्चमकाण्डः समाप्तः